अथ सप्तषष्टितमः सर्गः एवमुक्तस्तु हनुमान् राघवेण महात्मना सीताया भाषितम् सर्वम् न्यवेदयत राघवे इदमुक्तवती देवी जानकी पुरुषर्षभा पूर्ववृत्तमभिज्ञानम् चित्रकूटे यथा तथम् सुखसुप्ता त्वया जानकी पूर्वमुत्थिता वायसः सहसोत्पत्त्य विददारस्तनान्तरम् पर्यायेण च सुप्तस्त्वम् देव्यम् के भरताग्रजा पुनश्च किल पक्षी स देव्या जनयति व्यथा ततः पुनरुपागम्य शोणितेन समुक्षितः वायसेन च तेनैवम् सततम् बाध्यमानया बोधितः किल देव्या त्वम् सुखसुप्तः परम् तप ताम् च दृष्ट्वा महाबाहो दारिताम् च स्तनान्तरे आशीविष इव क्रुद्धस्ततो वाक्यम् त्वमूचिवान् नखाग्रैः भीरुदारितम् वै स्तनान्तरम् कः क्रीडति स रोषेण भोगिना निरीक्षमाणः सहसा वायसम् नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखम् स्थितम् सुतः किलशक्रस्य वायसः पतताम्बरः धरान्तरगतः शीघ्रम् पवनस्य गतौ समः ततस्तस्मिन् महाबाहो कोपसंवर्तिते क्षणः वायसे क्रूराम् मतिम् मतिमताम्बर सदर्भसंस्तराद्गृह्य ब्रह्मास्त्रेणन्ययोदयः स दीप्त इव कालाग्निर्जज्ज्वालाभिमुखम् खगम् स त्वम् प्रदीप्तम् चिक्षेप दर्भम् तम् वायसम् प्रति ततस्तु वायसम् दीप्तः सदर्भोऽनुजगामः भीतैश्च सम्परित्यक्तः त्रीन् लोकान् सम्परिक्रम्यत्रातारम् नाधिगच्छति पुनरप्यागतस्तत्र त्वत्सकाशमरिन्दम त्वम् तम् निपतितम् भूमौ शरण्यः शरणागतम् तु कर्तुमित्येव राघव भवांस्तस्याक्षि रामत्वाम् स नमस्कृत्य राज्ञो दशरथस्य च विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम् एवमस्त्रविदाम् श्रेष्ठः सत्त्ववाञ्छीलवानपि किमर्थमस्त्रम् रक्षस्सु नयो जयसि राघवा न दानवा न गन्धर्वानासुरानमरुद्गणाः तव रामरणे शक्तास्तथा प्रतिसमासितुम् तव वीर्यवतः कश्चिन्मयि यद्यस्ति सम्भ्रमः क्षिप्रम् सुनिशितैर्बाणैर्हन्यताम् युधिरावणः भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परम् तपः स किमर्थम् न रवरो न माम् रक्षति राघवः शक्तौ तौ पुरुषव्याघ्रौ वा सुराणामपि दुर्धर्षौ किमर्थम् मामुपेक्षतः ममैव दुष्कृतम् किञ्चिन्महदस्ति न संशयः समर्थौ सहितौ यन्माम् न रक्षेते परम् तपौ मै देह्यावचनम् श्रुत्वा करुणम् साधुभाषितम् पुनरप्यहमार्यान्तामिदम् वचनमब्रुवम् त्वच्छोकविमुखो रामो देवि रामे दुःखाभिभूते च लक्ष्मणः परितप्यते कथञ्चिद्भवति दृष्टा न कालः परिशोचितुम् अस्मिन् मुहूर्ते दुःखानामन्तम् राजपुत्रौ परम् तपौ त्वद्दर्शनकृतोत्साहौ लङ्काम् भस्मीकरिष्यतः हत्वा च समरे रौद्रम् रावणम् सह बान्धवम् राघवस्त्वाम्बरारोहे स्वपुरीम् नयिता ध्रुवम् यत्तु रामो विजानीयादभिज्ञानमनिन्दिते प्रीतिसञ्जननम् तस्य प्रदातुम् तत्त्वमर्हसि साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् मुक्त्वा वस्त्राद्दौ मणिमेतम् महाबला प्रतिगृह्यमणिन्दोर्भ्याम् तव हेतो रघुप्रिया शिरसा सम्प्रणम्यैनामहमागमने त्वरे गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी विवर्धमानम् च हि मामुवाच जनकात्मजा अश्रुपूर्णमुखी दीनाबाष्पगद्गदभाषिणी ममोत्पतन मा शोकवेगसमाहता मामुवाच ततः महाकपे यद्रक्ष्यसि महाबाहुम् लक्ष्मणम् च महाबाहुम् देवरम् सीतयाप्येव मुक्तोऽहमब्रुवम् मैथिलीम् तथा पृष्ठमारोह मे देवि क्षिप्रम् जनकनम् दिनी यावत्ते दर्शयाम्यद्य स सुग्रीवम् महाभागे भर्ता रमसिते यत्ते पृष्ठम्सि सेवेऽहम् स्वपशा हरिपुङ्गवा पुरा चलहम् वीरः स्पृष्टा गात्रेषु रक्षसा तत्राहम् करिष्यामि कालेनोपनिपीडिता गच्छ त्वम् कपिशार्दूल यत्र तौ नृपतेः सुौ इत्येवम् सा समाभाष्य भूयः रामलक्ष्मणौ सुग्रीवम् च सहामात्यम् सर्वान् ब्रूया अनामयम् यथा च स महाबाहुर्माम् तारयति राघवः अस्माद्दुःखाम्बु संरोधात् तत्त्वमाख्यातुमर्हसि इदम् च तीव्रह्ममशोकवेगम् रक्षोभिरेभिः परिभर्त्सनम् च ब्रूयास्तु रामस्य गतः समीपम् शिवश्च ते एतत्त वार्या नृपसंयता सा सीता वचः प्राह विषादपूर्वम् एतच्च बुद्ध्वा गदितम् यथा त्वम् श्रद्धत् स्व सीताम् कुशलाम् आदिकाव्ये सुन्दरकाण्डे सप्त सर्गः